हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमदध्यात्मनारामायणे अरण्यकाण्डे अष्टमः स्वर्गः श्रीमहादेव उवाच रामो माया विनं हत्वा राक्षसं कामरूपिणम् प्रतस्थे स्वाश्रमम् गन्तुं ततो दूरा दर्शितम् आयन्तम् लक्ष्मणम् दीनं मुखेन परिशिष्यत राघव चिन्तयामास स्वात्मन्येव महामतिः लक्ष्मणः तन्न जानाति मायासीतां मया कृतां ज्ञात्राप्य न वञ्चयित्वा शोचामि प्रकृतो यथा यद्यहं विरतो भूत्वा तूष्णीं स्थास्यमि मन्दिरे तदा राक्षसकोटीनां वधोपाय कथं यदि शोचाता दुख संतप्त संत कामको यथ तदा क्रमेणुन्वता सुराल रावण सकुम हीतामग्रिता मय्य स्थाता यात्रा योध्या चंद्रिता अहम मनुष्य भाव जा मनुष्य भाव आपन्न किञ्चित् कालम् वसामिकौ ततो माया मनुष्यस्य चरितम् मेन शृण्वताम् मुक्ति स्यादप्रयासेन भक्तिमार्गानुवर्तिनाम् निश्चित्यैवम् तदा दृष्ट्वा लक्ष्मणम् वाक्यम् अब्रवीत् किमर्थम् आगतो सी त्वम् सीताम् त्यक्त्वा मम लक्ष्मण प्राञ्जलिप्रह सीताया दुर्वचो हृदम् आलक्ष्मणेति वचनम् राक्षसोक्तम् श्रुतम् तया तद्वाक्य दुर्दृशम् श्रुत्वा मां गच्छेति त्वरा ब्रवीत् रुदन्ती सा मया प्रोक्ता देवी राक्षस भाषितम् नेदम् रामस्य वचनम् स्वसा भव शुचि स्मिते इत्येवं साध्वी मया प्रोवाच मां पुनः यदुक्तम् दुर्वचो राम न वाच्यम् पुरस्तव कर्णोऽपिधाय निर्गत्य यातोहं त्वाम् समीक्षितुम् रामस्तु लक्ष्मणम् प्राह तथाप्यनूचितम् कृतम् त्वया स्त्री सत्यम् कृत्वा त्यक्त्वा शुभ नीता वा भक्षिता वा इति चिन्ता परो राम स्वाश्रमम् त्वरितो ययो तत्र दृष्ट्वा जनकयाम् पाति दुःखितः आप्ये क्व गतासी त्वम् नासि पूर्ववदाश्रमे अथवा मद्विमोहाठम् वीलय क्व विलीयसे इत्याचिन्वन् वनम् सर्वम् न तदा वनदेव्य कुत ब्रुवन्तु मम वल्लभाम् मृगा च पक्षिणो वृक्ष दर्शयन्तु मम प्रियाम् इत्येवं विलपन्नेव रामस्ति तां न कुत्रचित् सर्वज्ञ सर्वथा क्वापि नापश्यद् रघुनन्दनः आनन्दोऽप्यन्वशोचताम् अचलोऽपि अनुधावति निर्ममो निरहङ्कारोऽपि अखण्डानन्दरूपवान् ममजाये जायेति सितेति विरला पाति दुःखितः एवम् विचिन्वन्त कलम् वनम् राम स लक्ष्मणः भग्नम् रथम् छत्रजापम् कोबरम् पतिरन् दृष्ट्वा लक्ष्मणमाहेदम् पश्य लक्ष्मण केनचित् नीयमानाम् जनकजाम् तम् जित्वा न्योजहारताम् गत्वा पर्वतसन्निभम् दुर्जराक्तृष्ट्वा वा रामो वाक्यम् अथ ब्रवीत् एष वै भक्षयित्वा ताम् जानकीम् शुभ दर्शनाम् विविक्ते इति पश्य हर्मी निजाचरम् चापम् मान शीघ्रम् मे बाणम् च रघुनन्दन तच्छ्रुत्वा रामवचनम् जटायुः मामने न मारयि भद्रं ते म्रियमाणम् स्वकर्मण अहम् जतायुस्ते भार्या हरिणम् समनुदृतः रावणम् तत्र युद्धम् मे बहुवारि विमर्दन तस्य वहान् रथम् चापम् तेन घातितः पतितोऽस्मि जगन्नाथे प्रणान् त्यक्ष्यामि पश्य माम् कण्ठ प्राणन्द दर्जहे हस्ताभ्यां संसृशं रामो दुःखाक्षु वृत्तलोचन है जता यो ब्रूहि मे भार्या केन नीता शुभान न मत्कार्यार्थम् अतो मे प्रियबान्धवः जतायु सन्नया वाचा वक्त्रा द्रक्तं समुद्वमन् राक्षसो भीम आदाय मैथिलीम् सीताम् दक्षिणाभिमुखो ययो इतो वक्तुं न मे शक्ति प्राणान् त्यक्ष्यामि ते घृतहे नित्या दृष्टोऽसि रामत्वम् म्रियमाणेन मेनघ माया मनुजरूपधृक् अन्तकालेऽपि दृष्ट्वा त्वाम् मुक्तोऽहम् रघुदत्तम हस्ताभ्याप्श माम् राम पुनर्यास्यामि ते पदम् तथेति रामः पस्पर्श तदङ्गम् पाणिना स्मयन् तदप्राणान् परित्यज्य यथायुः पतितो भुवि रामस्तम् अनुशोचित्वा लक्ष्मणेन समानाय काष्ठानि प्रददाह तम् स्नासा लक्ष्मणेन समन्वितः हत्वा वने मृगम् तत्र मासखण्डान् समन्ततः चाद्वले प्राक्षि बद्राम पृथक् पृथगणैकधा भक्ष्यन्तु भक्षिणः सर्वे ऋप्तौ भवतु बक्षिराट् इत्युक्त्वा राघवप्राय जटायु गच्छ मत्पदम् मत्सारुप्यम् भजस्वाद्य सर्वलोकस्य पश्यतः ततोऽनन्तरमेवासौ दिव्य रूपर शुभ विमानूह्य भास्वरम भानुसनि शंख चक्र गापन्म किरभूषण दोतय स्व प्रकाशन पीतांबरधरो अमल चतुर्भ पाशद विष्ण सादृश अभी पूजि तूयम योगिगण राम आभाष कृताञ्जलि पुटो भूत्वा तुष्टाव रघुनन्दनम् जटायुवाच अगणितगुणम् अप्रमेयमाध्यम् सकलजगच्छिति संयमादिहेतुम् उपरमपरमम् परात्मभूतं सततमहम् प्रणतोऽस्मि रामचन्द्रम् निरवधि सुखमिन्दिरा कटाक्षम् नरवरमनिशं नतोऽस्मि रामम् वरदमहं वार्चापणा चापबाणहस्तम् त्रिभुवनकमनीयरूपमीड्यम् रविशतभासुरमिहितप्रधानम् शरणदमनिशं सुरागमूले कृतनिलयं मृगुनन्दनं प्रपद्ये भव दैवत दैवतं दयालुं। सदैवतं दयालुम् धनुजप्रतिसहस्रकोटिनाशम् रवितनया सदृशं हरिं प्रपद्ये अविरत भव भावनातिदूरम् भवविमुखै मुनिभिः सदैव दृश्यम् भवजलधि सुतारणताङ्ग्रिपोतम् शरणमहं रघुनन्दनं प्रबध्ये गिरिशगिरिसुतामनोनिवासं गिरिवरधरिणी धरिणा मिहिताभिरामं सुरवरधनुजेन्द्रसेविताङ्घ्रिं सुरवरदं रघुनायकं प्रबध्ये परधनपरदारवर्जितानाम् परगुणभूतिषु दुश्च मानसानां परहितनिरतात्मनां तु सेव्यम् रघुवरमम्बुजलोचनं प्रपद्ये विसृच्यविकासितान्नाब्ज मतिसुलभं सुरराजनील नीलम् शितजलरुहरुहचारु नेत्रशोभम् रघुपतिमीज गुरो गुरुं प्रपद्ये हरिकमलजम्भुरूपभेरात् तम्यविभाषे गुणत्रयानुवृत्त रविरिव जलपूरितोदपात्रेषु अमरपतिस्तुतिपात्रमीज मीडे रतिपतिशतीशतकोटिसुन्दराङ्गम् चतपथगोचर विदूरम् यदिपति पतिहृदये सदा विभातम् रघुपतिमातिहरम् प्रभुम् प्रपद्ये इत्येवं सुवतस्तस्य प्रसन्नो भूद्रघुतम उवाच गच्छ भद्रं ते मम विष्णोः परम्बरम् शृणोति यः इदं स्तोत्रम् लिखेद्वान्यतः पठेत् स याति मरणे मत् स्मृतिं लभेत् इति राघवभाषितम् तदा श्रुतवान् हस्य समाकुलो द्विजः रघुनन्दन ब्रह्मसु पूजितम् पदम् इति श्रीमदध्यात्मनामायणे उमा अष्टमसर्गः वीसीतारामचन्द्रार्पणमस्तु